श्रीरामनाथभगवंस्तव सुप्रभातम् श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम् श्रीरामलक्ष्मणहनुमदुपासितेश्रीसेतुनाथभगवंस्तव सुप्रभातम् प्राच प्रतीच्य जलधिमिलितौ तरङ्गैः मन्द्रं मृदङ्गनिनदांस्तनुतस्तवेः मूर्च्छन्तटावनिरुहामिघशाखिकासु तानं समर्पयति मारुतवांशितोऽयम् गायन्त्य मे द्विजगणाश्रुति रम्यमुच्य ने च स्वरेण समुपाश्रित अभ्येति नन्दिमुख भीषातवायमरुणो अर्करथं युनक्ति तन्मुञ्चतं तव दृगन्तरलीनमर्थम् पूर्वम् प्रबुद्धगिरिजातव पादपद्मे संयोजनैजकर पद्ममुपस्थिते तद्भूतभृच्छय शयनं विमुच बुद्ध्यस्वबुद्धकमुपस्पृश नित्यशुद्ध देवी कपोलतलदर्पणमेव पश्य नित्यं यदङ्कनिलयाखिलमङ्गलाम् श्रीरामनाथ भुवनजागरूक निद्राच्छलेन तदलं दिशदर्शनं नः बुद्धस्वदेव सर्वे सुरा निजकृति प्रसृता धर्मप्रवृत्तिरपि सर्वजनोऽत्र भूयात् ते रामनाथ वृषकेतन सुप्रभातम् क्षेत्रान्तरे त्वमुपयुङ्क्ष्व शिरस्थ गङ्गा गङ्गाम् पुरा त्वमदधा ननु सत्यमद्य गङ्गा जलैः प्रतिदिनोपहृतैर्नयेत् भक्तजना गृह्णन्ति श्रीरामनाथ तव रत्नाकरेण च ममोदधिना च तीर्थम् सम्मेल्य पावनतमम् परिगृह्यते पाद्याय पाशभृतसु समुपस्थितोऽत्र श्रीरामनाथ भवते शुभ सुप्रभातम् कथमत्र नूनं त्वद्वैभवे भवे न हि गिरीशधृतः ससेतुः क्षिप्तम् जले तव धनुर्विभारशीला श्रीरामनाथ भवते अद्भुत सुप्रभातम् श्रीरामनाथ भवते अद्भुत सुप्रभातम् सैकता, कृतिमकल्प यदत्र सीता तच्चालने स हनुमानपि नैव शक्तः तत्तत्प्रत्यनुगुणपुरुलाघवम् ते श्रीरामनाथमहितं तव काश्यामरुत्सुत समाकृत विश्वलिङ्गदत्ताग्रपूजन समर्पण विश्वनाथ भववारिधिसेतुनाथ श्रीरामनाथ भगवंस्तभ सुप्रभातम् स्वं, स्वं विवादे विष्णर्विधे तद मृग्य शिरोधिंग येज संवू सीभीषण तस्थाक रघुपीड़िती गिरौ दुखिण निज यु तद्विमलनाम भृतम च कुंडम भस्मापि तद्भवमदाः प्रबलम् अलघ्नम् श्रीरामलिङ्ग भगवन्तव सुप्रभातम् अन्धाय वृद्धमुनये भवता प्रदत्तम् यद्गन्धमादन गिराविह सर्वतीर्थम् तस्वायिर्दिशसि यौवनमक्षिताक्षिम् रामेश्वरादिमहिमं तव सुप्रभातम् देव्यः प्रकाशितवतः परिशुद्धिमग्नेः तीर्थोत्तमस्य महिमा कथमस्तु वन्यः यस्मिन् समक्षमिहते सतताक्षिपातः सीतापतीडित रामो विभीषणकृतेनुपरोधमिच्छन् सेतोर्मुखं यदभिनं निज चापकुत्या तत्राप्लुता जनततिस्तव दर्शनेच्छुः श्रीरामनाथ परमेश्वर सुप्रभातम् श्रापश्चतुर्दश सहस्रपलाशहायः पौलस्त्यः तदपदान परम्परा य कोटिः तव स्नपनतीर्थमखानि कोट्या रामेण राघव कृता च न सुप्रभातम् सन्त्वाञ्जनेय कपि राजनयाः परे या वाम स्वजनो मेति स्व कपितीर्थकृति प्रकृष्टाः तान् पश्य ते रघुपतीश्वर सुप्रभातम् प्राक् प्रत्यगत्र हि न वाष्वगदर्भतल्पमध्ये श्री पूजित विभा तव सुप्रभातम् श्रीराम पूजित विभा तव सुप्रभातम् नश्यन्ति पञ्च दुरितानि महाति वाधु पापान्तराणि च तथा लय हीनलिङ्ग अग्रे तवाभिश्रवणात् तव दर्शनेन भातम् तीर्थानि सन्ति कतिवान् तव स्थलेऽस्मिन् तीर्थस्य तीर्थमिखते स्मृतिवा मनन्ति त्वद्भावतीर्थमनुगृह्य पुनीहिताः श्रीरामनाथ तव पावनसुप्रभातम् जलं यदि गतं न भवेद्धितीर्थम् तीर्थं त्वदमय ती गुणात्तव भक्तसङ्गात् तीर्थाप्लवे फलमपि तेरा ते रामनाथ वृषनाथ शुभप्रभातम् वां राघवो भज दिहेप्सितसेतुहेतोः अस्वप्लवन्त गिरयोऽस्य तव प्रसादाद् काशां जपन्नसि रामेच च रुद्रैव मे अस्त्रबलं तदेतद् श्यात्रम्बस्य मम वेद्युपमामिषेण पित्रादिवाक्यपरिपालन दुष्टशिक्षा शिष्टानुपालन कृतो ऋतधर्ममूर्ते स्वस्थापना च न कृतो रघुनायकस्य श्रीरामनाथ तव वामिघ सुप्रभातम् श्रीरामनाथ सुषमां तव सुप्रभाते द्रष्टुम् प्रफुल्ल नयन कमले क्षणोऽस्ता ब्रह्मा चतुर्वदनता बहु मन्यते स्वा सर्वे सगदनम् प्रति सार्ध्यसूय श्रीसेतुमाष्टलक्ष्म्यश्च सेतुपतिपाण्ड्यनृपादिमुख्याः भक्तादिगन्तत मिलिता समस्ताः श्रीरामनाथ परमं तव सुप्रभातम् श्रीरामनाथ परमं तव र्धे जपेन मननेन च विप्रबल्याः भर्गात्मकं सवितृमध्यविदिप्यमानम् त्वामेव सान्ध्यविधिना समुपासते श्रीरामनाथ तव दिव्यति सुप्रभातम् सन्तानकाक्षिण इमे समुपस्थितास्त्वाम् भ्यो दिशाभिलषितानि भवन्तु पुत्रास्थापके न पितृभक्तिगुणेषु तुल्याः श्रीरामनाथ सुगुणं तव सुप्रभातम् यक्षारदीय नवरात्रमहार्चनात् रामो विजयं विदधे सा शक्तिरिश तव पर्ववर्धनीयम् श्रीरामनाथैवयोरपि सुप्रभम् एष विद्यामयं बुद्धः ते, ते।, वा ते पर्वतेन्द्र कुलवर्धनि तेरा ते रामनाथ युवयोरपि सुप्रभातम् आवारिधे शरणमाच दशाननान्तम् अत्यद्भुतं सुबभुसाधिरवाण्ययोषः भोजोंशभृतव कपीन्द्रयिहास्ति गायम् श्रीरामनाथ तव मङ्गलसुप्रभातम् सम्बन्धमूर्तिरिह वाग्पतिरेश मातृभूतात्र शोणगिरिनाथ इहोपयात्रामधुरद्रविडस्तुतिस्ते श्रीरामनाथ सुभगं तव सुप्रभातु श्रीरामनाथ सुभगं तव सुप्रभातुम् गीते च मन्द्रनिगमे च पटुः समुद्दुः स्वामी महेन्द्रयिगपन्तु वराणि राये त्वत्कीर्तनम् वितनुतेषृजाग्रिवा त्वम् श्रीरामनाथ नव सुन्दर सुप्रभातम् श्रीधाम्नस्तदन्वयसमुज्ज्वलदीप एष श्रीचन्द्र श्रीचन्द्रशेखर यदि स्वदनं यगास्ते श्रीरामना च युवयोरपि सुप्रभातम् कामकोटिवरीठरुप्रदारपि सुप्रभातम् कामद चैतोकलीकलितराघवकोकिलोयम् उत्पूजति ह तव कामल सुप्रभातम् श्रीमातृभूतसमुदं च यदृग्विलासा कैलासतस्ततयित्वा रघुनाथ सेतोः भूर्भारतीयमखिला पिवैव गेहं तद्रक्ष राष्ट्रमिरमाखितु सर्व क्षे गेमं सदा विजयतां शिवमस्तु सन् शिवमस्तु सन् सुप्रभात जनिताभ्युदयाः समस्ता लोका भवन्तु सुखिनो विनुजः सुभिक्षाः हिंसां विहाय विविधा धृत कृपया दिश विश्व शान्तिम् श्रीरामनाथ कृपया दिश विश्व